अथ सप्तत्रिंशः सर्गः महामात्रवचः श्रुत्वा रामो दशरथम् तदा अभ्यभाषतवाक्यम् तु विनयज्ञो विनीतवत् त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः किम् कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः यो हि दत्त्वा द्विपश्रेष्ठम् मनः रज्जुस्नेहेन किम् तस्य त्यजतः कुञ्जरोत्तमम् तथा मम सताम् श्रेष्ठ किन्ध्वजिन्या जगत्पते सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे खनित्रपिटके चोभे समानयत गच्छत चतुर्दशवनेवासम् वर्षाणि वसतो मम अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् उवाच परिधत्स्वेति जनौ निरपत्रपा सचीरे पुर व्याघ्र कैकेय्या प्रतिगृह्य सूक्ष्म वस्त्रवक्षिप्य मुनिवस््राण्यवस्थ लक्ष्मणश्चा त्रव विहाय वसने शुभे तापसाच्छादने जग्राहरग्रता अथात्धा सीता कौशेयवासी सम्प्रेक्ष्य चीरम् सन्त्रस्ता पृषती वा गुरामिव साव्यपत्रपमाणेव प्रगृह्य च सुदुर्मणाः कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् कथम् नु चीरम् मुनयो वनवासिनः इति ह्यकुशला सीता सा मुमोहमुहुर्मुहुः कृत्वा कण्ठे स्म अन्तःपुरचरा नार्यो मुमुचुर्वारिणेत्रजम् ऊचुश्च परमायत्ता रामम् ज्वलिततेजसम् वत्स नैवम् वनवासे मनस्विनी पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् तावद्दर्शनमस्या नः भवतु प्रभो लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रका नेयमर्हति कल्याणि वस्तुम् तापसवद्वने कुरुणो याचनाम् पुत्रसीता तिष्ठतु भाविनी धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि तासामेवम् विधावाच शृण्वन् दशरथात्मजः बबन्धैव तथा चीरम् सीतया तुल्यशीलया चीरे गृहीते तुतया सबाष्पो नृपतेर्गुरुः निर्य सीता कैकेय वसिष्ठो वाक्यम्रवीत अतिवृत्ते दुर्मेधे कैकेयकुंस वंचयि तो राजसी न, न गव्यम वनंदिया सीतया शीलवर्जि अतिम से सीता प्रकृत आत्मा दारा सर्व दंग्रहवर्ति आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् अथ यास्यति वैदेही वनम् रामेण संगता वयमत्रानुयास्यामः पुरम् चेदम् गमिष्यति अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः सहोपजीव्यम् राष्ट्रम् च पुरम् च स भरतश्च स शत्रुघ्नः शीरवासावनेचरः वने वसन्तम् काकुत्स्थमनुवत्स्यति पूर्वजम् ततः शून्याम् गतजनाम् वसुधाम् पादपैः सह त्वमेकाशाधिदुर्वृत्ता प्रजानामहिते स्थिता महि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः तद्वनम् भविता यत्र रामो निवत्स्यति नह्यदत्ताम् महीम् पित्रा भरतः त्वयिवा पुत्रमद्वस्तुम् यदि जातो महीपतेः यद्यपि त्वम् क्षितलात् गगनम् चोत्पतिष्यसि पितृवंशचरित्रयः सोऽन्यथा न करिष्यति तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् लोकेन हि विद्येत यो न राममनुव्रतः द्रक्ष्यस्यद्यैव कैकेयि गच्छत सः रामेण पादपांश्च तदुन्मुखान् अथोत्तमान्याभरणानि देवि देहि सृषायै व्यपनीय न चीरमस्याः प्रविधीयते ते न्यवारयत्तद्वसनम् वसिष्ठः एकस्य रामस्य मने निवासस्त्वया वृतः केकय राजपुत्री विभूषितेयम् प्रति यानैश्च मुख्यै परिचारकैश्च सुसंवृता गच्छतु राजपुत्री वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयम् मृता ते वरसम्प्रदाने तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे नैव स्मसीता प्रियस्य भर्त्तु इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशत्